गर्गसंहिता खण्डम् 10, अश्वमेधखण्डम् अध्यायम् तर्टि टु गर्ग उवाच अथ वै बल्वलं दैत्यं शोचन्दम् काञ्चनासने मयप्रत्याहवचनं ज्येष्ठं कुम्भश्रुतिर्यथा अद्य दृष्टम् त्वया राजन् यदोनाम् बलमेव हि दैत्यवृन्दैश्च निहताश्चत्वारो मन्त्रिणस्तव अवशस्त्वमेवासि ह्यथ वाहम् च तत्त्व ह्यथवाहं तवे च दैत्येन्द्र यथा भूयात् तथा कुरु बल्वलःप्राहवचनमद्य यास्याम्यहं रणे शीघ्रम् हन्तुम् यदुन् सर्वां त्वम् गुप्तो भवमन्दिरे हरिकृष्णस्तु नन्दस्य पुरा पुत्र पुत्रप्रकीर्तितः वसुदेवो मन्यदेतम् मत्पुत्रोऽयम् गदत्रभः हयङ्गवी न दुग्धाज्य दधित तु सः चोरयामास गोपीनां रसिको रासमण्डले जरासुदभयात्सोऽपि समुद्रं शरणं गदः मारिदो मादुलो येन किं करिष्यति पौरुषम् इति तद्वाक्यमाकर्ण्य मह्यप्रकुपितो ब्रवीद मय उवाच यस्माद् बिभेदि ब्रह्मा च शिवो मायापुरन्दरः भयदम् निर्भयम् कृष्णम् तम् विनिन्दसि निन्दक कृष्णम् निन्ददियो मूढो ह्यज्ञानाच्च कुसङ्गदः कुम्भिपाके सपतदि यावद्वै ब्रह्मणो वयः चण्डपालशिशुपालमण्डली भञ्जनं धनुजदर्प कण्टनं माधवं मदनमोहनं परं त्वं भजस्वकुलकौशलाय च मयस्य वचनं श्रुत्वा ज्ञानं प्राप्तोऽपि बल्वलः क्षणं विचार्य राजेन्द्र प्रोवाच प्रहसन्निव बल्वल उवाच जानाम्यहम् विश्वपतिम् च कृष्णम् शेषम् बलम् वै मदनम् च कार्ष्णिम् अत्रागतम् पद्मभवम् हि चैषाम् वध्या वयम् तेन हयो हृतोऽयम् येषाम् बाणैश्च तदा सुखेन यास्यामि शीघ्रम् विष्णोः परम्पदम् पुरा च वैरभावेन वैकुण्ठम् बहवो गताः दानवा राक्षसाश्चैव तम् च भावम् करोम्यहम् इत्युक्त्वा दंशितो भूत्वा दानवानाम् शिरोमणिः स्वसैन्यपालकम् तूर्णं। समाहूयेदमब्रवीद पटकेन ममाज्ञाम् त्वम् पुर्याम् देहि प्रयत्नदः अनिरुद्धेन युद्धाय वीरेषु सैन्यपालका ये ममाज्ञाम् न ते वधार्हारणम् विना आत्मजा वा भ्रातरो चैव का कथा यदि श्रुत्वा स तद्वाक्यम् रथ्याम् रथ्याम् गृहे गृहे पडहेनापि तस्याज्ञाम् घोषयामासवेगदः श्रुत्वा पडः निर्घोषम् दैत्याशीघ्रम् भयातुराः गृहीत्वा सर्वशास्त्राणि ह्य जग्मुस्ते सभातलम् सैन्यपालस्ततः पूर्वम् लक्षदैत्यै समावृतः रथेन कवचि धन्वी निर्जगामपुराद् बहिः दुर्नेत्रो दुर्मुखश्चैव दुःखभावश्च दुर्मदः ये देवै मन्त्रिणा पुत्राश्चत्वारस्ते विनिर्ययुः मदङ्गजैर्महामत्तैश्चाङ्गैस्तुरङ्गमैः रथैश्च देवधिष्ण्याभैर् विद्याधर समयर विद्याधरसमैर्नरैः सद्यकामययानेन सद्यकामगयानेन मयदत्तेन बल्बलः स्वयम् जगामयुद्धार्थे चतुर्लक्षैर्महासुरैः सैन्यपालस्य पुत्रास्तु भोजनम् कुरु दे गृहे बुभुक्षितश्च युद्धाय शीघ्रं सोऽपि न निर्गदः नागदं बल्वलसैनिकाः नृपाय कथयामासुस्तस्य वार्तां च शङ्किताः तदस्तद्वचनाद्वीराबध्वा तं दामभीरुष नृपाग्रे चानयामासु प्रफुल्लवदने तम् दृष्ट्वा बर्सयित्वा च बल्वलश्चण्डशासनः भुचुण्डीं वदने चापि मारया मासवेगदः गदः दैत्या सर्वे भयम् प्रापुर्वधम् तस्य निरीक्ष्य च सैन्यपालस्तु सङ्ग्रामे मृदम् पुत्रम् निशम्य च रद्धात्मपादुःखार्थस्तडयन् मस्तकम् करैः विललापभृशंसोऽपि पुत्रदुःखेन दुःखितः आपुत्रवीरपितरं त्यक्त्वा मां च ृढं रणे गतशदग्निमार्गेण स्वर्गे मां विलोक्य च विना युद्धनहे पुत्र क्व गतो नृपशासनाद इत्येवं विलपं तत्र रणमण्डले ततश्च मन्त्रिणाम् पुत्रा शोचन्तम् प्रोचुरग्रदः मन्त्रिपुत्रा ऊजुः रोदनम् मा कुरु रणे शूरोऽसि त्वम् तु कृते च त्वत्पार्श्वे नागमिष्यति जन्मतस्तचन्दूनां मृत्युर्भवति साम्प्रतं धीरास्तत्र न शोचन्ति मूर्खा शोचन्ति नित्यशः गर्भेऽपि च मृता केचित् बालत्वे यौवनत्वे च वृद्धत्वे केचिदेव हि रोगेण दुःखेन पतनेन च सर्वे मृत्युं गमिष्यन्ति दैवात्कर्मवशा नराः को वा, को वा प्रिया प्रसुः संयुनक्तिविधा वैवियुनक्तिजकर्मणा संयोगे परमानन्दो वियोगे प्राणसङ्कटं शश्वद्भवति मूढस्य निश्चितम् आत्मकादीयदा भूत्वा प्राणान् त्यजसि दुःखितः पुनर्जन्म च निरयं व्रजिष्यसि न संशयः तस्मात् यदुक्तमयि सार्धं युद्धं कुरु महारणे क्षत्रियस्य परं श्रेयो धर्मयुद्धान्न विद्यदे धर्मयुद्धेन सङ्ग्रामे ये हदा व्रजन्ति ते विष्णुपदम् लोकान् सर्वान् विहाय गर्ग उवाच एवम् सम्बोधितो दैत्यशोकम् सर्वं विहाय च सर्वान् वीरानागदांश्च ददर्शरोषपूरिदः दृष्ट्वा सर्वान् सङ्ग्रामे शीघ्रम् प्राहरुषाज्वलन् यीगर्ग संहितायां हय मेंधखंडे सैन्यपालधो नामिंश्याय अयर्टि सैन्यपाल उच अगताे धन्वनो युग्धदुर्मदा युवराजो नृपसुदे चात्र चात्रन दृश्य स किं करिष्यति गृहे मारयित्वा जमत्सुतम् स भुशुण्डी मुखेनापि तन्मार्गम् किं न यास्यदि युत्युक्त्वा रोषताम्राक्षो गृहीतुं ग्रहीतुं नृपनन्दनं जगामनगरीम् शीघ्रम् सैन्यपालप्रहर्षिदः सराजपुत्रो मदिराम् वैभोजनान्तरे चकारशयनम् रात्रौ विस्मृतो मदविह्वलः तत्पत्नी बोधयामास भर्तारम् नृपनन्दनं श्रुत्वा पडः निर्घोषम् रुदति भयविह्वल उत्तिष्ठोत्तिष्ठ हे वीर प्रातःकालो बभूवः त्वत्पि येन यास्यन्ति युद्धार्थं ते वधार्हा सुदादयः तस्मात् प्रयाहि शीघ्रं त्वं गत्वा तादविलोकया प्रियया बोधितसोऽपि चैतन्यो न पुनः स बोधयामास सैन्ये बल्वले गदे तदस्य निद्रां च विहाय चोद्धिदः सद्यो गृहीत्वा सचरं धनुक्पिला किल शिवम् गणेशम् मनसा च सस्मरञ्जगाम युद्धाय रथेन वीक्ष्य नृपस्य नन्दनमुवाजरोषेण तु सैन्यपालकः कथं त्वया दैत्यवरस्य शासनं विलोपितं केन बलेन मां वद मत्सु दत्त्वा दृश्यो भूत्वा मृधे समाजिदो बल्वलेन शदग्निप्रमुखेन च तस्मात् गच्छपि दुपार्श्वं सत्यवादीपि दातव मारयिष्यति शीघ्रं वैनेदुं त्वां प्रेषितोऽस्म्यहम् वज्रस्तीक्ष्णं समाकर्ण्य भयाचुष्कमुखस्तु सः पितुसङ्काश्चात्स ययौ सुधन्वा दुक्किदो यथा ददर्शपितरं गत्वा दैत्यवृन्दैः समावृतं रथस्थम् कुपितम् तत्र ह्यनिरुद्धजयोत्सुकम् दृष्ट्वा तादम् नमस्कृत्य व्रीडितो भयविह्वलः अधो मुखस्थितो भूमौ दानवेन्द्रस्य पश्यदः दा बल्वल दन्ता दन्तैर्विनिष्पिशन् आज्ञाभङ्गत्वयाजन कृदस्वात्मविकातने तस्माद्विभेदम् किल युद्धमण्डलाद् गृहे गदम् प्राणपरीप्सया सुदम् कुनन्दनं शत्रुसमं मलीमसम् हित्वा शदघ्नी वदनेन हन्म्यहम् इत्युक्त्वा स्वसुदम्भीरो दुःखादश्रुपरिप्लुतः किन्न प्रत्याहमनसि प्रतिज्ञा किम् कृदा मया अहो विना पराधेन सैन्यपालसुतोपदः तेन पापेन मत्पुत्रो मरिष्यदिन संशयः मोचयिष्ये यदि सुदम्भीरम् मृत्युमुखाद्बलाद तदा मत्सैनिका सर्वे मां शपन्ति भसन्ति च शौचन्दमिद्धं नृपदिं च दुःखितं स्वपुत्रशोकेन दुःखिनमानसं विलोक्यरोषेण हसन्नमर्षिदो युवाच वाक्यं किल सैन्यपालकः सैन्यपाद उवाच येन मारय त्वं स्वपुत्रं च कुनन्दनम् पश्चाद्भवति सङ्ग्रामो यादवानाम् च दानवैः त्वम् सत्यवादी दैत्येन्द्र इदं कर्म च दारुणम् न करिष्यसि दुःखेन निरयस्ते भविष्यति सत्याद्रामसमं रामसमम् पुत्रम् तत्या च कोसलेश्वरः हरिश्चन्द्रप्रियाम् पुत्रम् स्वात्मानम् चैव भूपदे बलिश्चैव महीं सर्वां जीवनं च विरोचनः स्वकीर्तिं च शिबिश्चैव दधीजिस्वतनुम् तथा पृषध्रम् तु गुरुश्चैव रन्ति देवश्च भोजनम् आज्ञाभङ्गकरम् पुत्रम् तथा मारय त्वं त्वया पूर्वं च यत् आज्ञाभङ्गकरं हन्मि शीघ्रमन्यस्य का तस्मिन् देशे च वस्तव्यं यस्मिन् भूपश्च सत्यवाक् तस्मिन् देशे न वस्तव्यं यस्मिन् भूपो ह्य गर्ग उवाच इति तद्वाक्यमाकर्म्यबल्वलखिन्नमानसः मारणार्थं तु तस्यापि तस्मै चाज्ञां चकारः तदो जगामदुःखाढ्यो नाम सम्मुखे तु सैन्यपालस्तु तस्याज्ञाम् तत्पुत्राग्रे न्यवेदयद श्रुत्वा प्रत्याहवचनम् शीघ्रम् तस्मै कुनन्दनः राजपुत्र उवाच कर्तव्या च नृपस्याज्ञा त्वया परवशेन वै रामेण दुहृतम् शीर्षम् स्वमाधुपितुराज्ञया सैन्यपालप्रतीतोऽहम् कृदा धर्मक्रियामया मरणान्नभयं मह्यम् शतघ्न्यां च निवेशय इत्युक्त्वा राजपुत्रस्तु स्वकिरीडम् तथा गदम् मुक्ताहारं स्वर्णहारम् कुण्डले कटकानि ब्राह्मणेभ्यो ददौ सर्वं ते दुःखा दाशिषम् ददुः तदस्नात्वा सतीर्थस्य लेपयित्वा च मृत्तिकाम् तुलसीपल्लवमालां मुखे कण्डे निधाय ब्रुवन् श्रीकृष्णरामेदि चकारस्मरणहरेः सैन्यपालस्तु तम् शीघ्रम् गृहीत्वा भुजयोर्बलाद कारयामास राजेन्द्रशदघ्नि वदने रुष आहाकारस्तदैवासीत् सैनिका रुरुदुर्भृशम् रुरोद बल्वलस्तत्र दृष्ट्वा शदघ्निम् तत्रापि प्रदत्ता मदपुरिदाम् ताम्रगोलभसंयुक्तमग्नियुक्तम् भयङ्कराम् सराजपुत्र श्रीकृष्णम् सर्वव्यापिनमीश्वरम् अश्रुपूर्णमुखो भूत्वा प्रत्यागविमलम् वचः कृष्णम् मुकुन्दमरविन्द दलायदाक्षम् शङ्गेन्दु कुन्ददर्शनम् नरनाभवेषम् इन्द्रादिदेवगणवन्दिदपादपद्मम् प्राणम् प्रयाणसमये च हरिम् स्मरामि श्रीकृष्णगोविन्दहरे मुरारे श्रीकृष्णगोविन्दकुशस्थलीश श्रीकृष्णगोविन्दव्रजेश भुव श्रीकृष्णगोविन्दभयात्प्रपाहि स्मरणा तव गोविन्दग्राघान्मुक्तो मदङ्गजः स्वायम्भुवश्च प्रफ्ला दोह्यम् परीषो ध्रुवस्तभात् आनर्तश्चैव कक्षीवान्मृगेन्द्रात् बहुला तदाहं शरणम् गतः पूर्वम् भवति मे च विना ह्यहो प्रधाने निरुद्धो विशिखैर्मया न तोषिदा यादवाश्च न दृष्टा कृष्णनन्दनाः शार्ङ्गमुक्तैश्च विशिखैर्न देहस्यकलीकृतः कुनन्दस्य शूरस्य स्तेनस्येव भवद्गतिः त्वद्भक्तं माञ्च सर्वे हसन्दीः यं वीक्ष्य भूमौ च पलायते वै यमो मरिष्यन्ति विनायकश्च निरङ्कुशम् कृष्णजनं च पूज्यम् कथं सदघ्नि किल माम् हनिष्यदि गर्ग उवाच युद्धं वदति सूर्ये वै सैन्यपालस्य चाज्ञया सदघ्नि मुमुचे कच्चिद्धाः शब्दस्तद्धा स्मरणात् कृष्णचन्द्रस्य चित्रमेगम् बभूवः शदग्नी शीतला जाता ज्वाला शान्तिम् कदा नृपा दृष्ट्वाश्चर्यम् च तत्रापि जनाः सर्वे नृपादयः विसिष्णुराजशार्दूलसैन्यपालस्तदा ब्रवीद सदग्न्यां शुष्कमधिरा गोलकेन समन्विता न विद्यते त्वस्सौ तस्मान्न मृदो रणमण्डले इति तस्य वच श्रुत्वा प्रोचुर्वीरा रुषान्विदाः अयं निष्किल्दिशूर्यकृष्णभक्तो महामधिः रक्षितस्तेन दुःखाद्वै पुनर्हन्तुं जनार्हसि तेषां वाक्यं समाकर्ण्य सैन्यपालो रुषान्विदः ददर्शराजपुत्रं वै शदग्नि वदने स्थितम् जपन्तम् कृष्णकृष्णेदि स्रजा मीलितलोचनम् दृष्ट्वा तम् च पुनर्हन्तुम् मुमुचे कलः सा शदग्नी तदा भिन्ना शब्दो वज्रनिपातवद बभूव पालस्तु गोलकेन तदा तदनुगस्तस्य ज्वालया ज्वलिदा किल आहा शब्दम् प्रकुर्वन्तो दुद्रुवु केजिदेव हि केजिद्वै बधरीभूता केजिद्धूमेन विह्वलाः ततश्च ददृशु सर्वे नृपपुत्रं च निर्भयम् चक्रो जय जय रावम् बल्वनाद्या नृपेश्वर रक्षति श्रीकृष्णस्तम् को भक्षति मानवः भक्तम् हन्तुम् चागदो यः विनश्यति दैवदः तस्मात् कृष्णसमो नास्ति एनायम् रक्षितो भयाद सर्वे वयम् नमस्यामस्तम् कृष्णम् भक्तवत्सलम् यदि श्रीगर्गसंहितायाम् भयमेधकण्ठे राजपुत्रजीवननामत्त्रयत्रिंशोऽध्यायः ओ अध्यायम् 34 गर्ग उवाच अधवै वै बल्वलपुत्रम् रोहयित्वा रथे मुदा तेन सार्धम् सैन्यस्तु प्रयय उत्तरम् नाना शास्त्रधरा सर्वे नानावाहनसंस्थिताः नानाकञ्चुकसंयुक्ता नानारूपा भयङ्कराः गजेन्द्रसदृशापुष्ठा मृगेन्द्रसमविक्रमाः कम्पयतश्च पृथिवीम् वृष्णीनाम् सम्मुखे ययुः ताना गदान बहून्दनिधस्त शिता रक्षण चर्व चक्रव्यूहको यादवाशूरासधरा कि गजैरथैस्तुर बभूवु पिमंडिता तेषाम् मध्ये स्थिता राजन्निन्द्रनीलादयो नृपाः अक्रूर कृदवर्माद्यास्तेषाम् मध्ये स्थिता शुभाः तेषाम् मध्ये च राजेन्द्र गदाद्या कृष्णभ्रादरः तेषाम् मध्ये महावीराः साम्बा दीप्तिमदादयः चक्रव्यूह विमा चेदृश्यं तत्र भूपदे काष्णि तमध्ये काीपुत्रस्तु दंशिद संस्थित बभूव तडे नृपा, युद्ध त्र सिंधुतडे नृप यदुदान ह्यना रथिनो रथिभिस्तत्र गजवाहा गजैः सह अश्ववाहैरश्ववाहा वीरा वीरैः परस्परम् युयोधोस्तीक्ष्णबाणैश्च खड्गचर्मगदर्ष्टिभिः पाश्यै परश्वधै राजञ्चदघ्निभिर्भुषुण्डिभिः हन्यमानाश्च यदुभिर्बल्वलस्य च सैनिकाः सर्वे स्वं स्वं रणं त्यक्त्वा दुद्रुवुस्ते भयान्विताः रुरोधगगनं सूर्यं सैन्यपादरजो अंधकारे महादैत्या महादैत्यात् सर्वे परां पराङ्मुखाः के निपतिता कूपे के जित के जित केचित्तडागे वाप्याम वै यदू नाम यदूनां सायकैर्हदाः तदो दृष्ट्वा बलम् भग्नम् बल्वलो रोषपूरितः चतुर्भिर्मन्त्रिणाम् पुत्रै स्वपुत्रे नाजगामः अनिरुद्धो बल्वलेन तत्रायुध्यन् महामृद्धे दुर्नेत्रेण बृहद्वाहुर्दुर्मुखेन अरुणो बली न्यग्रोधो दुःस्वभावेन दुर्मदेन कविस्तथा कुनन्दनेन संग्रामे कृष्णपुत्र सुनन्दनः एवम् बभूवसङ्ग्रामे देवविस्मयकारकः प्रगतास्तत्र राजेन्द्र सर्वे कार्तिकवासराः बल्वलकुपिदो राजन्धनुष्ठङ्कारयन्मुहुः इन्द्रनीलम् त्रिभिर्बाणैषड्भिर्हे माङ्गदम् मृदे अनुशाल्वम् च दशभिरक्रूरम् दशभिस्तथा गतं द्वादशभिर्बाणैर्युयुधानं च पञ्चभिः पञ्चभिकृतवर्माणमुद्धवं दशभिः शरैः काष्णिजं शतबाणैश्च विव्याधसमरे सुरः तत् शरैः शरद्धा सर्वे बभ्र मोर्खटिकाद्वयम् तुरगा पञ्चतां प्राप्ताश्चूर्णीभूताराधारणे तद्धस्तलाघवं दृष्ट्वा यादव विस्मयं गताः ता रथानारुः सर्वे निरुद्धाद्याश्च मानद बल्वलोकियौराजन्नन्यान्वीरान्विलोकितुम् अनिरुद्धस्ततः प्राह क्रोद्धादरुणलोचनः तिष्ठतिष्ट ममाग्रेद्य दर्शयित्वा पराक्रमम् कुत्र यास्यसि हे दैत्य पश्य मन्निशिताञ्चरान् इति तस्य वच श्रुत्वा युवराजकुनन्दनः उवाच वचनम् शीघ्रम् च पश्यतः राजपुत्र उवाच दैत्येन्द्रम् चरणे द्रष्टुम् त्वम् च नार्हशिकार्ष्णि च तस्मान्मदीयम् च बलम् पूर्वम् पश्य मृद्धाङ्गणे अनिरुद्ध उवाच त्वम् बालोऽसि दैत्यपुत्रयुद्धम् कर्तुम् च नार्हति तस्माच्च स्वगृहम् गत्वा क्रीडनम् कुरु कृत्रिमैः राजपुत्र उवाच अत्र पश्य महावीरैर्बालस्य मम क्रीडनम् गृहे यदि करिष्यामि तत्र कोऽपि न इत्युक्त्वा चण्डकोदण्डे दद्धार शतसायकान् तदाडकार्ष्णीजं तैश्च रथस्थं दर्शयन् बलं तैर्बाणै शरथसोऽपि ससूतः सदुरङ्गमः विभ्रमन्नभमार्गेण पपादकपिलाश्रमे हाहाकारस्तदैवासीदनिरुद्धे गदे सदि तदक्रुद्धाश्च तं हन्तुं आयुर्मृधे आगतां स्तान् बहु दृष्ट्वा युवराजप्रकर्षितः साम्बं च दशभिर्बाणैः पञ्चभिश्च मधुं तथा बृहद् बाहुं त्रिभिर्बाणैश्चित्रभानुं च पञ्चभिः मृकं च दशभिर्युद्धे सप्तभिश्चारुणं शरैः पञ्चभिः सङ्ग्रामजिदम् सुमित्रम् च त्रिभिः शरैः दीप्तिमन्दम् त्रिभिर्बाणैर्भनुम् च दशभिर्मृधे वेदबाहुम् पञ्चभिश्च पुष्करम् सप्तभिः शरैः च सम्मुखस्तं सुनन्दनम् विंशत्यासाय कैस्तीक्ष्णैर्विरूपम् चित्रबाहुं च नवभिर्न्यग्रोधं दशभिः शरैः कविं च नवभिर्बाणैस्तत्राणः कविं च नवभिर्बाणैस्तदाडप्रधने बली शङ्घं दग्मौ मुदा युक्तो नन्दमानी कुनन्दनः तद्बाणाैर्विभ्रमन्तश्च सरदास् सदुरङ्गमाः पेदुकेद्युदियोजने च पञ्चक्रोशे द्वियोजने आहाकारे तद यादे सेनायां नृपसत्तमा रुरुदुर्यादवः सर्वे रामकृष्णे तदा गतादयः सर्वे मुञ्चतो निशिताञ्चरान् इन्द्रनीलादयश्चैव ह्या जग्मुक्रोधपूरिताः दृष्ट्वा समागतान् वीरान् राजपुत्रो महाबलः विव्याधसायकैः सर्वे ह्यभूवन् मूर्च्छितारणे तत्पश्चाद्यादवान् चूरान् बाणौकैर्बल्ल्वलात्मजः तदाड तत्स रैराजन् बहवः पञ्चताम् गदाः सङ्ग्रामे तस्य बाणौघैरुधिराणाम् नदी ह्यभूत् अस्ति नो यत्र मग्नाश्च स म्रियन्ति च हाहाकारस्तदैवास्ये चेनायाम् च चेना नभस्तले महेन्द्रवरुणाद्याश्च भयम् प्रापुश्च विस्मिताः जयम् दृष्ट्वा सुरा सर्वे बभूवुर्मुदिताननाः गर्ग उवाच अथ वैमूर्छितम् दृष्ट्वा निरुद्धम् कपिलो मुनिः अधयानम् निपतितम् शरनिर्भिन्नवक्षस्सं चकार तम् तु चैतन्यम् हस्तेन तपसा मुनिः ततः सोऽपि समुद्धाय सिद्धम् न त्वा सेतुमार्गेणा जगाम यदून् सर्वान् प्रकर्षयन् अधान्यम् रथमारुह्य प्रदि शार्ङ्गधरो बलि निजखानशरं चैकम् राजपुत्ररथेरुष स शरस्तद्रथम् नीत्वा ससूदम् सदुरङ्गमम् चतुर्मुहूर्तपर्यन्तम् भ्रामयामस चाम्बरे ततश्च ददृश्युः सर्वे दानवाश्चैव वृष्णयः गगने विभ्रमन्दं वै शरथं च गुनन्दनम् अधसाम्बादयो वीरारधानारुह्यवेगदः अनुशाल्वादयश्चैवा जग्मुः सर्वे धनुर्धराः श्रीगर्ग संहिताया हयमेधखंडे दैत्यदवय युद्धवर्णनम 35 गर्ग उवाच अथ वै शाल्यो संग्रुशा दुर्मुख युयुे चेंद्रनीलस्थ दुर्नेत्रेण दुरात्मना हेमाङ्गदो दुर्मदेन दुःस्वभावेन सारणह एवम् परस्परम् युद्धम् बभूव रणमण्डले सारणोगदया दैत्यम् मारयामासवेगदः हेमाङ्गदस्त्रिभिर्बणैस्तदाड दुर्मदं मृधे सस्वबाणैर्मृधे तं तु सोऽपि शक्र्या जखानदम् इन्द्रनीलश्च दुर्नेत्रं जखानलीलया शरैः दुर्मुखं चानुशाल्वो वै चकारविरथं शरैः सचान्यं रथमारुह्य चक्रेथं विरधं शरैः परिखेणानुशाल्वस्तु जखानदुर्मुखं मृधे दुर्नेत्रे दुःस्वभावे च दुर्मुखे दुर्मदेहदे अवशेषा दुद्रुवुर्वै दैत्याप्राणपरीक्षया तदपपादचाकाशाद्राजपुत्रश्च विभ्रमन् मूर्छितो भूद्रणे राजन्नुद्वमन् रुधिरम् मुखाद रथश्चाङ्गारवत्तस्य भग्नो भूतुरगाखताः तदश्च बिल्वलक्रुद्धपुत्रम् दृष्ट्वा च मूर्च्छिदम् मुमोच धनुषबाणाननिरुद्धाय वेगदः तानागदान् दशशरान् दृष्ट्वा रुक्मवदीसुतः स्वबाणैस्तीक्ष्णधारैश्च चिच्छेदस्वर्णभूषितैः ततो दैत्योरुषविष्टश्चापो रुषा विष्टश्चापे धृत्वा पुनः शरम् उवाच माधवम् युद्धे प्रद्युम्नम् शकुनिर्यथा बल्वल उवाच अनेन बाणेन यदुप्रवीर धनुर्धरं त्वाम् रणमानिनम् च मृधे घनिष्येन वदाम्यसत्यम् रक्षस्व प्राणान्यजीविते सोऽपि श्रुत्वा स्वकोदण्डे शरमेकम् निधाय च प्रत्याह प्रहसन्वाक्यम् प्रद्युम्न शकुनिम् यथा अनिरुद्ध उवाच केन हन्यदे जन्तुस्तथा केन रक्ष्यदे हनिष्यति सदा कालस्तदा दुःखदः अहं करोमि कर्ताहं कर्ताहं पालकोऽप्यहं यो वदेच्छेदृश्यं वाक्यं स विनश्यति कालदः नाहं त्वां तु विजेष्यामि न विजेष्यसि त्वं तु मां त्वां मां जेष्यति कालो रूपो जगत्पदिः न जाने कस्य कुरुदे जयं वाच पराजयम् कालस्थं वन्दे विजयार्थे च दानव तस्मादेव हि मनस्सा कालं हि बलिनां वरं मद्वाक्याच्चमहाज्ञानम् विहाय त्वम् रणम् कुरु इति तस्य वच श्रुत्वा बल्वलो विस्मयान्वितः तमाहतोषितप्रीतो यदा त्वाष्ट्रो मरुत्पत्तिम् बल्वल उवाच कर्मप्रधानम् भू मध्ये कर्मैव गुरुरीश्वरः पुच्चावचत्वम् भवति कर्मणा वैयदुत्तम सहस्रशुगवां वत्सः यथा विन्ददि मातरम् तथा शुभाशुभम् य न तदो जेष्यामि सङ्ग्रामे भवन्तम् दृढकर्मणा मया कृतश्च शपथप्रदिकारम् गुरुत्वरम् अनिरुद्ध उवाच प्रधानम् अन्यसे कर्म विना कालेन तद्फलम् न विद्यते यथा पाके कृते स्याद्विघ्नदा क्वचिद् पाकप्रकारे पाकश्च विना न जायते तस्माद्वदन्ति कर्दारं कर्मकालात् परं वरं स कर्ता कृष्णचन्द्रस्तु गोलोकेशपरात्परः येन वैनिर्मिद सर्वे ब्रह्मविष्णुशिवादयः बल्वल उवाच श्रीकृष्णपौत्रधन्यस्त्वमृषिन्वाक्यैर्विडम्बयन् त्रिभिर्गुणैः पृथग्बोधस्वभावो दुस्त्यजो नृणाम् सावधानतया चाद्य पश्य प्राणहरम् शरम् सम्प्राप्तम् यादव श्रेष्ठ कृत्वा युद्धे मनःस्वकम् इत्युक्त्वा व्यसृजन्मायाम् स्वबाणेन मयस्य तत्र कोऽपि न लक्ष्यदे न च स्वीयो न पारक्यो वितामासजनान् बहोन् शिलापर्वतत्तुङ्गाभाः पतन्ति व्याकुलाश्च समन्तदः विद्युदो विलसन्त्यत्र गर्जन्ति वारिदा भृशन् वर्षन्ति रुधिरं चोष्णं मुञ्जन्ति स शकृञ्जलं गगनात्पदमानानि कबन्धानि शिरांसि च तदा व्याकुलिताः सर्वे परस्परभयातुराख पलायनपराजादा सङ्ग्रामे च यदुत्तमाः तदा निरुद्धप्रधने स्मृत्वा कृष्णपदद्वयम् मायाम् तांसविधु याधमोहनास्त्रेण लीलया तदा दिशप्रसेदुस्ता सूर्यस्त्वपरिवेशवन् मेघा यदागतम् याताश्चपलाः शान्तिमागताः तदा दैत्यश्च पुरदो दृश्यदे दानवैर्युधाः नानायुधधरो राजन्मायावी चण्डविक्रमः ब्रह्मास्त्रम् सन्तदे क्रुद्धो यादवानां वधायजा च ब्रह्मास्त्रेण दुर्ब्रह्मास्त्रं जहारमाधवः पुनः ततश्च बल्वलक्रुद्धो गान्धर्वीं मोहिनीं परां विजयार्थे च सङ्ग्रामे मायांसोऽपि चकारः गन्धर्वनगरं यत्र दृश्यते नृपसत्तम न दृश्यते च सङ्ग्रामस्वर्णसौधानिकोडिशः बभूवुस्तत्र गन्धर्वो नृत्यन्त्यो गानतत्पराः वीणातालमृदङ्गैश्च कलकण्ठैश्च कन्दुकैः आवभावकटाक्षैश्च कडिवेणी निदर्शनैः तोषयन्त्यो जनान् सर्वान् सुन्दर्य कञ्चलोचनाः तासां दृष्ट्वा जसौन्दर्यं यादवापरविह्वलाः ऊज्युः परस्परं सर्वे धृत्वा शस्त्राणि भूतले वयं कुत्रागतः सर्वे स्वर्लोके किम्दु तु दैवतः यत्र नृत्यन्ति सुन्दर्यकलकण्ठ्यो मनोहराः आसां लावण्यजलधौ वयमग्ना स्मरातुराः कथम् भविष्यति जयो रणम् चात्र न दृश्यते इति ब्रुवत्सु सर्वेषु बल्वलक्रोधपूरितः शीघ्रम् निस्त्रिंशमादाय कन्तुम् सर्वान् समाययौ आगत्य खड्गेन यदुप्रवीरान्विमोखितान् सोऽपि सहस्रशश्च जखानयुद्धे यदि ते निपे दुर्दृष्ट्वा निरुद्धस्तु रुषातमुचे किं संग्रामे धर्मं धर्मम् सद्भिर्विगर्हितम् मोहितानां मारणे च न श्वाघाते भविष्यति यदि शक्तिशरीरेऽस्ति मया सार्धम् ऋणम् कुरु इति तद्वाक्यमाकर्ण्य बल्वलो बलदर्पिदः आजगामपदातिर्वै खड्गचर्मधरो नदन् तमापतन्तं स निरीक्ष्य रोषात् रथादवप्लुत्य मनोजपुत्रः कृतान्तदण्डेन जखान दैत्यं यथा महेन्द्रो निर्भिन्नहृदयो दैत्यप्रपादचालयन्महीम् चतुर्वासरपर्यन्तम् मूर्चिदो भूद्रणाङ्गणे तदा निपतिते दैत्ये माया शान्तिम् गदा स्वतः युद्धम् प्रदृश्यते तत्र यादवा विस्मयम् निरुद्धजयो नाम पञ्चत्रिंशोऽध्यायः ओ अध्यायम् तर्टिसिक्स् गर्ग उवाच कुनन्दनोऽपि सम्मूर्छाम् त्यक्त्वा गाद्रणमण्डले ततस्तक्रोधसंयुक्तप्रवर्षन् प्रवर्षन् धनुषा शरान् दृष्ट्वा तमागतम् वीरोनिरुद्धपरवीरः पप्रच्छ सेवकाम् तस्य वार्ताम् रोषेण दीपितः सेवकास्ते तदप्रोजुरेष तद त्वया बल्वलनन्दनः महाराज युद्धं कर्तुम् समागतः श्रुत्वा निरुद्धप्रोवाजहनिष्येहम् कुनन्दनम् तदैव तमुवाचाध कृष्णपुत्रसुनन्दनः सुनन्दन उवाच राजन्कोयं दैत्यपुत्र क्वेदं परिमितं बलं ज्येष्ये सन्त्वप्रतापेन तस्माद्गच्छाम्यहं प्रभो राजन्शृणुत्प्रतिज्ञां मे तवानन्दप्रदायिनीं न चेत् कुनन्दनं ज्येष्ये बहुसङ्ग्रामकोविधम् कृष्णस्य चारणाम्भोजमध्वा स्वादवियोगिनम् यत्पापञ्च भवेत्तन्मे न जये यदि मा यदानवम् यो पितरं चनसेवदे यदखम् तु भवेत्तस्य तन्मे भूयाञ्जयेन वै इति प्रतिज्ञामाकर्ण्यानि युद्धस्तस्य भूपदे जहर्षचित्ते तं निर्दिदे शरणम् प्रदि इत्याज्ञप्तो निरुद्धेन चैकाकी कृष्णनन्दनः जगामदं सिदस्तत्र यत्रास्ते बल्वलात्मजः कुनन्दनस्तमाज्ञा यत्त्वागतम् प्रधने रुष प्रत्युज्जकामवीराग्र्यो रथी शूरशिरोमणिः अन्योन्यम् तौ सम्मिलितौ रथस्तौ चापधारिणौ रे जाते राजशार्दूलयधा दमनपुष्कलौ उभौ सायकभिन्नका उभौ रुधिरविप्लुतौ मुञ्चं तौ शरकोडीश्च संधं तौ तरसाशरान् शरान् आदानेनैव ना मोचनं च न भूपतेर्दृश्यते तौ महाशूरौ कुण्डलीकृतकार्मुकौ तद्रथं राजपुत्रस्तु भ्रामकास्त्रेण शोभिना भूतले भ्रामयामः स चक्रवद भ्रान्त्वा मुहूर्तमात्रम् तु तद्रथो वाजिसंयुधः स्थितिं लेभे तदकाश्निर्जखान तद्रथे शरम् स या पपातकौ विशीर्णो भूद्यथा वै काजभाजनम् उद्धितःपि विरधो हदाशवहदसारथिः अन्यम् रथम् समारुह्य यावदायादिसम्मुखम् बभ्ज तावद्बाणैश्च तद्रथम् कृष्णनन्दनः एवं सप्तरथा भग्ना दैत्यपुत्रस्य वैरणे तदा कुनन्दनसङ्ख्ये स्थित्वा याने विचित्रिदे आययौ नृपवेगेन कृष्णपुत्रं नियोधितुम् आगत्य दशबिर्बाणैस्ताडयामासतं मृधे शरैस्ते सोऽपि निहितपरं कष्मलदां गदः तद धनुरुद्यम्य गृहीत्वा दशसायकान् मुमोच तस्य हृदये कृधकृष्णात्मजो बलि ते शरारुधिरम्बित्वा निपेदुर्वै महीतले यद्धाहि पितरो राजन्नरके कूढसाक्षिणः कुनन्दन सुनन्दनं सुनन्दन कुनन्दनं महद्रणे महच्छरैर्निजग्न दुःपरस्परं येवं हि तौ प्रचक्रतोर्युद्धवरं शरैश्च कुशाम्ब साम्बा विवसं युगे वै तद कृष्णात्मजो वीरकोदण्डे स्वर्णनिर्मिते मृगाङ्कार्धमुखं बाणं धृत्वा शीक्रं तमब्रवीद सुनन्तन उवाच शृणु मद्वचनं वीर बाणेनानेन ना त्वच्चिरः सद्यश्चिह्नम् करिष्येऽहं शिरोरक्षबली यदि यदि मद्वचनम् सत्यम् प्रधने त्वम् न मन्यस्य तदा मे तव मृत्युविसूचिका सतीं च गुरुपत्नीम् च यो दूषयति कामदः स यादनां यां वै यमराजस्य सन्निधौ सायातनाजमे च मे भूयात् सत्यं मम प्रतिश्रुतं यः समर्थश्च स्वगुरुं पितरं च न तस्य पापं ममैवस्तु न हनिष्ये चत्वां रणे तद्वाक्यं दैत्य आहरुष्राज्ज्वलन् राजपुत्र उवाच बिभेमिनाहम् रणसङ्ग्रामे शत्रुसम्मुखे प्राणिनां चैव सर्वेषां मृत्युर्भवति यदि मुञ्जसि सङ्ग्रामे मद्वधार्थे महाशरं तदाकं स्वशरेणापि शीघ्रं चेत्मिन संशयः एकादश्यां च ये मानादन्नं भुञ्जन्ति भूतले मातरं भ्रातृपत्नीं च भगिनीं च सुतां तथा पापं तेषां ममैवस्तु न चेद्मिरम् यदित, इति तस्य वचस्पष्टं श्रुत्वा शङ्कितमानसः प्रत्युवाच पुनर्वाक्यं श्रीकृष्णं सोऽपि संस्मरन् सनन्दन उवाच मया कृष्णाङ्घ्रियुगलं सेवितं मनसा यदि कपटेन विना तर्हि सत्यम् भूयाद्वजो मम स्वपत्नीं च विना वीरनाञ्यां पश्यामि कामदः तेन सत्येन सङ्ग्रामे वाक्यम् भूयादृदम् मम युत्युक्त्वा सायकं तीक्ष्णं विमुमोच मन्त्रयित्वा च मन्त्रेण मंद्र महाकालानलोपमम् वीक्ष्य विशिखम् स्वबाणेन नृमात्मजः सद्यच्चिच्छेद हि यथा सर्पं पक्षेणपक्षिराडिन्ने तस्मिन् चरे राजन् काहाकारस्तदाभवद चचालपृथिविलोकैर्देवास्ते का विस्मयं गदाः परार्धपदि दोबाणपूर्वार्धफलसंयुधः शिरचिच्छेददैत्यस्य तरोः स्कन्धं यथा गदः किरीडकुण्डलैर्युक्तं पतितं तस्य मस्तकं निरीक्ष्य हाहाशब्दं वै चक्रुर्दैत्याश्च दुःखिताः कुनन्दनकबन्धस्तु शीघ्रमुद्धायसंयुगे खड्गेन मुष्टिभिपादैर्बहोञ्चत्रो जखानः ततश्च यदुसेनायां नेदुर्दुन्दुभयो मुहुः परिसुरा पुष्पवर्षं प्रचक्रिरे इति श्रीगर्गसंहितायाम् हयमेधकण्ठे दैत्यपुत्रवधवर्णनम् नाम षट्त्रिंशोऽध्यायः ओम् अध्यायम् थर्टि सेवन् वज्रनाभिरुवाच कुनन्दने कदे ब्रह्मन् बल्लुवले मूर्च्छिदेरणे न कृतम् तु सहायम् वैरुद्रेण करुणात्मना कस्मान्न चागतो रुद्रो यज्ञपूर्ण कथम् भवेद कथम् विमुक्तस्तु रगस्तन्मे व्याख्यातुमर्हसि सौतिरुवाच इति तस्य वच श्रुत्वा गर्गो ज्ञानवदाम्बरः स्मृत्वा सर्वाम् कथाम् ब्रह्मन्नुवाच यदु गर्ग उवाच बल्वले मूर्चिदे राजू कुनन्दने महाकोपम शिवचक्रे प्रेरितरर्षि आ नम क्रुद्धो भक्रक्षाकिव चंद्ररेखा वहन्मूर्धनि जडा जूडातरे नृप सर्पहारायैर्मुण्डहारैर्भस्मलिप्तो भयङ्करः दशबाहुपञ्चमुखो नेत्रैः पञ्चदशैर्वृदः सिंहचर्माम्बरधरो मदमत्तोभयङ्करः त्रिशूलपट्टिशधरो धनुर्बाणधरपरः कुडारपाशपरिखभिन्दिपालैर्विभूषितः सहस्र रविसङ्काश सर्वभूतगणावृतः हन्तुम् सर्वान् वृष्णिवरान् कार्ष्णी जप्रमुखान् मृधे कैलसादायययौ शीघ्रम् चालयन् पृथिवीतलम् कोलाहले महानाशीदाकाशे भूतले नृपा देवदैत्यनरा सर्वे भयम् प्रापुश्च विस्मिताः सगणम् सपरिवारमागतम् वीक्ष्य शङ्करम् प्रलयकर्तारं प्रलयकर्तारम्भयम् प्रापुर्यदुत्तमाः अनिरुद्धस्य च मुखम् निस्तेजस्कमभूद्भयाद शकम् पेहृदयन्तस्य दुःखितस्य रणाङ्गणे तत प्रत्याहवचनम् निष्ठुरम् सर्वयाधवान् गृहीत्वा हस्तेन गिरीशक्रोधभूरितः शङ्कर उवाच अनिरुद्ध कुत्र गतो गद कुत्र सुनन्दनः साम्पादय कुत्र गत भक्तम् हत्वा सुनन्दनम् बल्वलमूर्छितम् कृत्वा मद्भक्तं दैत्यसप्तमम् तस्यानुगान् मृधे हत्वा कुत्र यास्यन्ति वृष्णयः तस्मात् सर्वम् हनिष्यामि मद्भक्तानां रिपून् मृधे अहं विष्णुर्विधिश्च इदे भक्तं रक्षन्ति दुःखतः गर्ग उवाच इत्युद्धीर्यानिरुद्धं स प्रेषयामास भैरवं त्वं कि योद्धुं गच्छ शूरकार्ष्णिजं जयिनं मृधे सुनन्दनं नन्दिनं च प्रेषयामास रोषधः गतं च वीरभद्रं वै साम्बं शशिखिवाघनं विरूपाक्षः समादिशद यदूंश्च प्रेषयामास भूतप्रेदांस्तदशिवः तदस्तेद्रवचनभूतप्रेतविनायकाः भैरवा प्रमादाश्चैव वेदाल ब्रह्मराक्षसाः उन्मादाश्चैव कूष्माण्ड आ भूदानि जघ्नुश्चाङ्गार्यादवाश्च विनायकाः पट्टिशर्भैरवाशूलैः खड्वाङ्घै प्रमदा किल जनान् अश्वान् गृहीत्वा दु ब्रह्मराक्षसाः यादुधानाश्चरर्वयन्दो मनुष्याणां शिरांसि च कपालैस्तत्र वेदालापिबन्धो रुधिरं रणे पिशाचास्तत्र नृत्यन्ति प्रेदा गायन्ति एव हि मुहुर्मुहु कन्दुकानिव क्षेपयन्तो मुहुर्मुहुः अट्टहासं प्रकुर्वन्त प्रधावन्त इतस्ततः गजान् रथां सर्वजन्तो दृश्यन्ते रणमण्डले रक्तं पिशाच्यो डाकिन्यं पाय यं त्यसुधामृतेर् मारोगिरिति अक्षिणिज तदा मृजन् उन्मादाश्चैव कूष्माण्डा निर्माय मुण्डकैस्रजः संयच्छन्ति महेशाय शूराणां स्वर्गकामिनाम् आहाकारस्तदैवासीद्यु सैन्ये नृपेश्वर दुद्रु दुद्रुवन्दोभयादश्वा धावन्तस्तत्र दन्दिनः वीरा प्रपदिदा युद्धे गदा मृत्युं सहस्रशः दृष्ट्वा चेद्धं गणबलं दीप्ति माधवात्मजः चापे निधाय विशिखान् मुमुचे परमाद्भुतं तेसराविश् वी वी कोड़िशा कोड़िशा के शराविशुस्तिक्मा भूतप्रयदविनायगन् कोडिश कोडिशराजन्यधारण्यम् शिखण्डिनः ततश्च दुद्रुवुर्भिन्ना सर्वे भूतगणशरैः केचिन्निपतिदा युद्धे केचिद्वै निधनम् गताः नखताश्च शरैकेऽपि पतिता पूर्वमेवजा पलायुते प्रदगणे भैरवक्रोधपूरितः त्रिशूलिसारमेयस्त आजगामकृतान्तवद तम् दृष्ट्वा कालरूपं च भैरवम् तु भयङ्करम् न कोऽपि युयुधे तेनानिरुद्धो युयुधे अनिरुद्ध पञ्चशरैस्तद्वाढ भैरवम् मृधे स चापि वरम् सोऽप्यन्यं रथमारुह्य सज्जं कृत्वा धनुर्दृढं तताडदशभिर्बाणैरौद्रमायाविनं हृधे तैर्बाणैर्निहदसोऽपि किञ्चित् कश्मलतां कदः त्रिशूलं त्रिशिखं तस्मै चिक्षेपज्वलनप्रभं शूलं समागतं दृष्ट्वा बाणैश्चिच्छेदकार्ष्णिजः छिह्नम् स्वीयम् त्रिशूलम् वै दृष्ट्वा रुद्रसुतो बलि ससृजमायया तत्र मुखादनलमेव या मुखा तेनाग्निना जज्वलुश्च महीवृक्षाधिशोदश पदादीनाम् रथानाम् च हयानाम् दन्दिनाम् तथा जज्वलुश्च शरीराणि मुञ्जपुष्पप्रतूल्लवद केचित् प्रज्वलिता वीरा केचिद्वैभस्मदां गदाः अग्निना पूरितं सैन्यं कृष्णं केजित्स्मरन् दीः सेनाम्भयादुरां दृष्ट्वा निरुद्धो धन्विनां वरः दधारविशिखं चापे ज्ञात्वा मायां विनिर्मितां मन्त्रयित्वा च मन्त्रेण पर्जन्यास्त्रेण सायगं मुमो जगगने शीघ्रं स्मरन् कृष्णपदाम्बुजम् शरे मुक्ते समागत्य मे काः प्रववृषुर्जलम् अग्निशान्तिम् गतो राजन्यथा प्रावृत्तथा बभौ शिखण्डिनकोकिलाश्च चादकाः सारकादयः मण्डूकाव्याश्च प्रजगुरिन्द्रगोपा विरे जिरे पुरन्दरस्य चापेन सौदामिन्याम्बभौ नभः प्रयासम् निष्फलम् दृष्ट्वा भैरवो भैरवं रवम् चकार स्वमुखेनापि सर्वेषाम् त्रासयन्मनः ननादतेन ब्रह्माण्डम् सप्त लोकैर्भिलैः सह विचेलुर्दिग्गजास्ताराराजद्भूखण्डमण्डलम् तदैव बदरीभूता बभूवुपदिता नराः पुनश्च भैरवक्रुद्धो हस्तम् हस्तेन पीडयन् निष्पिषन्नधरम् दन्तैर्लेलिहानस्वजिह्वया नेत्राभ्याम् रक्तवर्णाभ्याम् पश्यन् सर्पैर्विभूषितः जग्राहपरशुम् तीक्ष्णम् तृणीकृत्य यदूत्तमम् तदैव जृम्भणास्त्रेणानिरुद्धो रणगोविदः भैरवमोहयामास श्रीकृष्ण इव शङ्करम् तेनास्त्रेण रणे राजन्ननिरुद्धस्य पश्यतः पपादभूतले रौद्रो जृम्भितो निद्रिदो भवद इति श्रीगर्गसंहितायाम् हयमेथखण्डे भैरवमोहनम् नाम सप्तत्रिंशोऽध्यायः ओम्